अथैकचत्वारिंशः सर्गः पुत्रांश्चरगता ज्ञात्वा सगरो रघुनन्दन नप्तारमब्रवीद्राजा स्वतेजसा शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा पितॄणाम् गतिमन्विच्छयेन चाश्वोपवाहितः अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च तेषाम् द्वप्रतिघातार्थम् सासिम् गृह्णीष्व कार्मुकम् हत्वा विघ्नकरानपि सिद्धार्थः सन्निवर्तस्व मम यज्ञस्य पारगः एवमुक्तोशु सम्यक् सगरेण महात्मना धनुरादाय खड्गम् जगामलघुविक्रमः सखातम् पितृभिर्मार्गमन्तर्भौमम् महात्मभिः प्रापद्यतनरः श्रेष्ठतेन राज्ञाभिचोदितः देवदानवरक्षोभिः पिशाचपतगोरगैः पूज्यमानम् महातेजा दिशा गजमपश्यत सतम् कृत्वा पृष्ट्वा चैव निरामयम् पितॄन् आसमञ्जकृतार्थस्त्वम् सः श्वशीघ्रमेष्यसि तस्य तद्वचनम् श्रुत्वा सर्वानेव गजार। दिशा गजार् यथाक्रमम् यथा प्रष्टुम् समुपचक्रमे तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः पूजितः सह यश्चैवा गन्तासीत्यभिचोदितः श्रुत्वा जगामलघुविक्रमः भस्मराशीकृता यत्र पितरस्तस्य सागराः स दुःखवशमापन्नस्त्व समञ्जसुतस्तदा शुक्रोश परमार्तस्तु वधात् तेषाम् सुदुःखितः यज्ञयम् च हयम् दुःखशोकसमन्वितः स तेषाम् स जलार्थी महातेजा न चापश्यज्जलाशयम् विसार्य निपुणाम् दृष्टिम् ततोपश्यत् खगाधिपम् पितॄणाम् मातुलं राम सुपर्णमनिलोपमम् स चैनमब्रवीद्वाक्यम् वैरतेयो महाबलः माशु चः पुरुषव्याघ्रवधोऽयम् लोकसम्मतः कपिलेनाप्रमेयेण दग्धा हि मे महाबलाः सलिलम् नार्हसि प्राज्ञ हि लौकिकम् गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभा तस्याम् कुरु महाबाहो पितॄणाम् सलिलक्रियाम् भस्मराशीकृतानेतान्प्लावयेल्लोकपावनी तया क्लिन्नमिदम् भस्म गङ्गया लोककान्तया षष्टिम् पुत्रसहस्राणि स्वर्गलोकम् गमिष्यति निर्गच्छाश्वम् महाभागसङ्गृह्य पुरुषर्षभा यज्ञम् पैतामहम् वीरनिर्वर्तयितुमर्हसि सुपर्णवचनम् श्रुत्वा सोंशुमानतिवीर्यवान् त्वरितम् हयमादाय पुनरायान्महातपाः ततो राजानमासाद्य दीक्षितम् रघुनन्दना न्यवेदयद्यथा वृत्तम् सुपर्णवचनम् तथा तच्छ्रुत्वा घोरसङ्काशम् वाक्यमंशुमतो नृपः यज्ञम् निर्वर्तयामास यथा कल्पम् यथा विधि स्वपुरम् त्वगमच्छ्रीमानिष्टयज्ञो महीपतिः गङ्गायाश्चागमे राजा निश्चयम् नाध्यगच्छत अगत्वा निश्चयम् राजा काले महता महान् त्रिंशद्वर्षसहस्राणि राज्यम् कृत्वा दिवम् गतः शे श्रीमद्राणे वाक आदि का्यलकांडे एक का सर्ग